विसोमा इन्द्रदेशविष्टधृष्टवागै आत्मा प्रणक्तेन्द्रियमृतस्थो ज्योतरश्मिभिः इन्द्रविद्धरेव हतो प्राधिष्टसमसम् हृलाण्डस्त्वतेरुपायज्ञम् च मानूणाम् आदिष्टवृत्र हन्थम् युक्तम् ते ब्रह्मणाहनीचीनम् सुते मनोग्रामा कृणोतु भग्नुना इममिन्द्रसुतम्येवज्येष्ठममत्यम् मदम् शुक्रस्य त्वाभ्यक्षरम् धारा ऋतस्य सादाने इन्द्राय मत्सलिन्द्र भो ज्येष्ठम् नमस्य दासहाद्रसीतारोहरे यदिन्द्र गच्छसे न कृष्पा कदा मर्तामराधसम् कदा क्षुम्बामिव स्फुरत् कदा नः स्वस्रभक्तिरजिन्द्रो अङ्गा यच्छिद्धित्वा बहुभ्यः सुवाङ्गाविवासति उग्रम् तत्पत्यते स मयिन्द्रो अङ्गा स्वादोरिक्तामीशोमो मद्भक्तिबन्दि गोर्याः ृष्णावदन्ति शोभेव स्मीरणस्वराज्यम् राष्टवृषायुभस्तोमम् श्रेणन्ति प्रश्नायः ज्यालिन्द्रस्य धेन भो वज्रम् छिण्न्ति राजम्बस्मीरणस्वराज्यम् रास्य नमधा सहसफल्यन्ति प्रचेदसः िरे ब्रूणि पूर्वचित्तजेव स्वराज्यम् इन्द्रादधीतास्तभिर्वृदान्यप्रादिस्तुतः जघानपतीर्णः यच्छन्न स्वस्य यच्छिरः पर्वतेष्वश्रितम् पथि यच्छर्यणावधि ्राहगोरामन्वधनाभद्मष्टुरबीच्यम् इच्छा चन्द्रमासो गृहे को हद्यलिङ्के धुरिगा धृतस्य समी एवमिनो दुर्घणायो आसन्नेषाम्भृत्समजोभोन्विलेषाम् कयी ईषते भुज्यते कोऽपि भायको मम् स कस्तो तमिन्द्रम् को अन्ति कोकाशकयिभायोत राजेभ्रवत्सन्वे एको जनाय को अग्निमीटे हमिषाधृतेन सुता ऋतुबद्ध्रुवेः कस्मै देवाहासुः मकोमम् स देवी त्वमङ्गप्रशं शिरो देवस्य विष्टमत्यम् न त्वद्यामघस्य मध्येन्द्रग्रवीमि देवचाः मा देनाधां जि मात भूतयो वसोऽस्मान्त ो निदर्शणिभ्यः रजे शुम्भन् तेन योगसप्तयोमन् रुद्रस्य दूरवस्तुतम् सह रोदधीः मरुदश्चक्षिरे वृधे मदन्तिरेषु कृष्माजः तमुक्षिरासो महिमानामासदधिद्रासो अधीचक्तिरे सदाः अर्धम् गो अर्कम् जनयम् दयन्त्रियमधिश्रियोदधिरे वृष्टिमादरः गोमादरोज्जम् ते अन्ये स्तनोषो शुभ्रादधिरे विरुक्मातः बाधम् ते विश्वामभिमाति नमपवर्मा अन्येषामनो नीयते घृतम् विजेऽध्यायम् ते सुपादृष्टिभिः प्रत्यावयम् सो अजुराजितो जासायन् मरुतो रथेष् वृणम् राजा स पृषधीरयुग्ध्वम् प्रगल्गेषु पृषधीरयुग्ध्वम् वाजे अज्ञिम् मरुतोरम्भयन्तः हम् ददप्ता यो रघुष् रघुवत्ता नः प्रतिघात बाहुभिः श्रीरता मरिरुलभस्तदस्तृतम् मादयध्वम् वरतो मध्वन् दे वर्धम् दस्वदाभतो महित्पराणाकम् दस्तु रुरुचक्रिरे सदाः दष्मण्यगणम् मदच्छुदम्बजोरसी जन्मधी बहि नििये जिवेद्योधयो न यद्मा यः श्रभस्य वो न पृथुजे भयम् देविश्वा भुवना भवद्भ्यो राजा न जिवस्तेन सन् नृशो नः पश्चायद्वज्रम् सुकृतम् निरञ्जलम् सहस्रा भृष्ट्यम् स्वभा अवर्तयत् धरतरेन्द्रो नर्यवाम् श्रीकर्तवेहम् वृत्रम् निरवामोहोद्यतर्नवाम् गोभन्नो नुद्रे पदम् नमोज सादादृहाणम् चित्पि दुर्गिपर्वतम् धनम् तोपानम् मरुतः सुदान गोपधे सोमस्य ङ्गोदामाय धृष्णे आगच्छन्ती मम सा चित्रभा नवः कामम् विप्रश्च तर्पयम् सन्ति विधातो निधातु अस्मभ्यन्तानीवनुकाव्यम् करयन्नाहत वृणः सुवीरम् मरुतोयस्य हिक्षये माथा दिवो वि महतः गोपात भोजनाः एकेल् वा विद्यमाहसौ विप्रस्य वामधीनाम् मरुतशृणुताहवम् उत भागस्य भागिना न विप्रदक्षत स अस्य वीरस्य बर्हिणे सुतस्य भोगिभिष्पो मुखम् मदश्च दस्यते अस्य श्रोषम् पाभु भो विस्वागस्तर्षणीरभि सूरङ्गिः सदृशीराः भूर्तिव सनद्भियम् अहोभिस्तर्षणीनाम् ेन तत् सत्यसमद आविष्टर्तमहि त्व विद्युदारक्षाः गुहादा गुह्यन्तमावियागमिस्मत्रिणम् ज्योतिष्टर्ता यजस्मसि प्रत्पक्षसप्रतापसोऽपि रप्सिनो नानदा अमीथुरारिजीषिणाः दृष्टातमासो नृतमासो अञ्जभिर्या नद्रे केचिद्वाजीवस्तृभिः वह्परेषु यत चिद्ध्वम् जयम् वय शिवमृदः केन चित्पथा उप बोरथेष्वघृतमुक्षता ीणा पद्मेष् विसुरे वा रेचते भूमिर्जामेषु यद्ध युञ्जते शुभे एक्रेल योधुना योग्राज दृष्टय स्वयम् वाहि त्वम् पालयन्त धूतायः स्वीस्तभिरावृतः अधि जावानेस्य जन्मनावदामसि सोमस्य जिक्वा प्रतीगादिकक्षासान्धम् सम्यक्सनादिर्नामानि चिरे श्रियशेकम् पानभिः सम्यकेते रष्टभिस्तकृताभिः सुखादयाः ीमन्दयुष्मिनो अभीरवो विद्रेन्द्रियस्य मारुतस्य धाम्नाः आविद्यन्मद्भिर्मरुतस्मर्ते रसे धिर्यादऋति मद्भिरस्तवर्णैः आवरणिष्ठयानयुरामयो न पप्तता सुमायाः ते रेभिर्म न माषङ्गे रुक्माणचित्रस्वधीजीवान् कव्यारथश्च जङ्खनन्त भूम श्रीकम्भो अधीतलोषवासीर्मेधावना न क्रीणवन्त भूत्वा युक्ष्मभ्यन्तम् मारुतस्तु जातास्तु विद्युम्नासो धनयन्ते अद्रिम् ृध्रा पर्यावागोधिमायम् कार्याम् च देवी ब्रह्मा कर्मन्तो गोतामासो अर्कैरोद्भङ्गो रुद्रमुत्सदिम् विमध्यै एतत्यन्द्रयो जा नेति शस्तान् मारुतो गोतामो वः अस्य निरन्यचक्रा न योगंष्ट्राता गोराहून् ोजभद्रे प्रविष्टो भज बाधदोरवाणी हस्तो भजदृधा मनस्वधाभस्त्योः मा नो भद्रास्त्रोयन्तु विश्वदोलब्धासो अपारीता स बुद्धिदाः एवानो यथा सविदृहे हसङ्गयुवो रक्षितारोधिवे दीवे देवानाम् भद्रासु भदोयताम् देवानाम् राशिरभिनो निवर्तता देवानाम् सख्यमुपासेजिमामयम् देवानाश प्रतीरन्तु जीवसे तान् पूर्वाय विविधाः होमहे भयम् भवम् मित्रमदीतिम् दक्षपसृधम् अर्जवनम्बरुन् सोप बृहस्पति नः सुभगामयस्तरमयो माता पृथिवी तत् पिता जौः तद्रावानस्वधामयोभुवस्तदस्विना दृणतम् धृष्टायुवाम् रमीशाञ्जगस्तस्तु बृहस्पतिम् धियञ्जिन्मवधे हो महे यथा वेद सामसद्भृधे रक्षिता वायुरदब्धः स्वस्थे स्वस्ति न इन्द्रा वृद्धश्राव स्वस्ति न पूषा विश्ववेदाः स्वस्ति हस्तार्क्षरिष्टमे स्वस्ति नृहस्तदधातु पृषादस्वा मरुतः प्रश्नीमादर सुभय्या वा नो द्विधेषु जग्माजः चक्षसो विश्वे नो देवामसागामन्यः भद्रम् कर्णेऽभिस्मृयामले वा भद्रम् पश्ये मार्तभिर्गत्राः स्थिरैरङ्गैः स्पृष्ट्वा स स्थलोभिर्व्यासेम देव हि संयदायोः शरदो अन्तिदेवा यत्र नश्चक्राजलसम् तनुवा पुत्रायत्रापितरो भवन्ति मानो मध्यारीर्षदा निर्दन्तोः अलीतिर्जौरदीतिरन्दरिक्षमति धर्मादासविलासपुत्रः विश्वे देवा अलीतिः पञ्चजना अदे गर्जातमदे गर्जनि त्वम् रोणो मित्रो न यतु विद्वान् हर्यमादेवैः सजोढाः ते एव स्वोमसेवानास्ते अप्रामो रामहोभिः व्रता रक्षन्ते विश्वाः ते अस्मभ्यम् सन्नायम् सन्नमृतामर्त्येभ्यः बाधमाना अभ्यः थस्तु विदाय श्रियम् इन्द्रो मरुताः पूषा भगवञ्जासः उदतोऽधियोगो अद्राः पोषन् नष्टमे वायावः वा। कर्ता न स्वस्ति मदाः मधुमातायते मधुक्षरन्ति सिन्धावः आध्वीर्ण सन्तोषधीः मधुरक्ता ्रजाः मधुजौरस्तु नः पिता मधुमान्दावनस्तधर्मधूमास्तु सूर्याः माध्वेर्गावो भवन्तु नः सन्नामित्रः संवरो नः सन्ना भवत्वर्जः सन् नयन् गाव्यहस्पतिः सन्ना, सन्ना विष्णो जन त्वं स्वाभप्रती मनो नेषि पन्था सः प्रणी दीवितरो देवेषु रत्नाम भजन्त धीराः त्वं सो आभक्रदोभिस्वक्रदर्भोस्त्वम् दक्षैस्तु दक्षा ृडाः मृगन्ते भर्मेपाजुर्जुम्ज भवो ऋक्षाः राज्ञानु नश्च वृतानि नृणन् भीरम् नमः प्रियो न मित्रो रक्षाय्यो अर्यमेवासि सोम या ते धामा आदिव्या पृथिव्या अहे हेरन् राजन् सोमप्रदेहम् जागृभाय त्वम् सोहमाधिरम् राजोदवृद्धः त्वम् भद्रो अधिक्रतो सोमनोपसो देवासु नम रामहे हियस्तोत्रो वनस्पतिः मम महेफक्यो नृतायते रक्षम् यथा जीवसे तन्नः सोम विश्वतो रक्षाराजन्नखायतः नरिष्णे तावत सखा मजो मयोभुव भूतयः सन्ति दासुषे नाभिर्नाविजा इमम् यज्ञमिदम् वचो ऋजुषान सो भक्तम्ना ऋे भाव सोमाघेर्भृष्टाः भजम् वर्धया वो वचो विदाः सुमृको नामीष अयस्पानोऽ सुमित्रिवर्धानः सुमित्रस्सो मनोभव सोमारन्धिनो हृदिका भो नयवसेष्वार्यायिवस्व भोग्ये यः सोमसख्ये तव रद्दे भवत्याः तम् दक्षः सजते कविः गुरुष्याणा अभितस्ते सो मणिपाक्यम् भासः सर्वाः आप्यायस्वतमे रुते विश्वत सोमभृष्टम् भवाजस्त आप्यायस्वमनिन्दमसोमविश्वेऽभिरंसुभिः भवा नस्त्व श्रमस्तमः सखाभृधे सन्ते पयांसि समोऽयम् दुवाधाः समृष्ट्याण्यभिमाचिकाः आव्याय मानो अमृताय सोमीश्रवान् शुद्धमानि धिष्ठे धामानि हमिषायजम् जाते विश्वापरिभूरस्तु यज्ञम् अजय स्वानः प्रचरदस्तु वीरो वीरः प्रचरदो मधुर्यान् सो धेन सोमो अर्वन्दमासुन्दोमहावीरम् सादन्यम् विदच्छम् सुरेयम् विदुश्रव रञ्जोददा तस्मै अषा नै वित्सुकृ सुभ्यम् सर्षा मप्सा भजनस्य गोपा हरेषु च सुक्षुजम् दुश्रव पा अन्तरिक्षञ्ज्योतिभावितमो भवत्स देवेन नो मनसा देव सोम राजो भागम् सदा तावन्नभियुध्य मा त्वाद नदीशी देवीर्यस्यो भयेभ्यप्रति वित्सारष्टौ एतावृत्या वृदत् केतुमत्र समूर्भे अध्येतज ूधानीव धृष्टव प्रतिकाबोरुषे यन्ति मातराः उदभक्त स्वायुजो वक्रम् नृषासो वयुनाय पूर्वसादृशम् ब्रह्मानुमरुषे वशिस्रयुः अर्चम् दिनारे रामसो न ऋष्टिभिस्तमानेन योजानेनापरापताः हन्ति सुेदहयमानाय सुन्वते अधिपेशाम्पोन्नुते वच्चे मर्जाहम् जो चर्विश्वस्मै भुवनाय गृह्णती गा बोधृतम् यो भुषा भक्तमाह प्रात्यर्चीरुषस्यादर्शिभिष्ठते बाधते वृष्टमध्वम् स्वरुण्डवेशो आदितशेष्वञ्चित्रम् दिवो दुहिता भागमश्रे हतारश्व श्रिये रसाय विभाे सुप्रासौ मसादीतः स्मतिनेत्रे सुहृदानाम् जिमस्ता मेदिभि गोतामेभिः प्रजामातो नृपतो अस्प बुद्ध्या ऋषो गो अर्द्रा उपामा शिवाजा निषतम् सुवीरम् दासप्रा वर्गम् भ्रजमस्व बुद्ध्यम् सुगङ्गसूता सुभगृहन्तम् देवी देवीपानाभिदक्षा प्रे चक्षो दुर्भिजा विभाति विश्वम् देवम् च बोधयं बोधयन्ति विश्वस्य वाचामभिरन्मनायोः पुनः पुनर्जायमाना पुराणी समानम् वर्णमभिशुम्भमाना स्वध्रीव ग्रन्थर्विजामिनानामर्थश्च देवी रनयन्त्यायोः योन्नति दिवो हन्तास्वदारम् सृतर्यो योति रमि नीमानुष्यायुगा निजोढा चारस्तन्न चित्रा सुभगा प्रसादान्धन्नक्षोदास्मै नी देव्यानि वृदानि सूर्यस्तरे भर्दृशा गूढस्तश्चित्रमाभास्मभ्यम् वाजिनीवति तेन तोकञ्चतनायम् च धामाहे पुषो अदेह गो वत्यस्वावति विभावनिस्तेभ्योक्षसो नृतावति युक्ष्वा हि वाजिनीवत्यस्वाहारु गूढः गाय्यामाह अस्मीना भक्तिरस्मदा गोपद्दश्राहिरन्वदे अहर्वाग्रसंसमागसादि यच्छताम् चाहित्रा श्लोकमादिवोज्यो यक्रथोः आगमोर्जम् बहदमश्विना युवाम् एह देवा मा यो भुवा दस्रा हिरण्यवर्तनीषद्भुधा वहन्तु सोमा भीतये अग्नेयेषो मा भिवंसुमे सुषम् रेषणाहवम् प्रेषुक्तानि हर्यतम् भव तम् दासुषेमयाः अग्नेयेषो मायो अद्य वादम्बचः स पर्यति तस्मैस्तम् सुमेर्घ्यङ्गभाम् कोढम् स्वस्य अग्नेशो मायाहुतिम् यो भाम् दासाधविष्टम् समस्तुमेर्घम् विश्वमाचुर्यवत् अग्नेशो मा चितद्भीर्यम् भाञदमुष्णे दसम् अपादिरसम् वृदयस्य शेषोविन्दतम् ज्योतिरेकम् बहुभ्यः युपमेतानि दिविरोचरान्यज्ञश्च सोमसत्र युपम् सिन्धो ग्रभितश्च भज्यादग्नेशो भावमञ्जतम् गृहीतान् ो माधरिष्वाजभारामथ्राधन्यम् परिश्ये नो अद्रेः अग्नीरो मा ब्रह्मणामावधानो रम्यज्ञाय कत्रसनुलोकाम् अग्नीो मा हमिषः प्रस्थितस्य वीतम् मर्यादम् मृणना विषेधा भूतमसा भोः यो अग्नीषो मा हमिषा परजा भद्रीका मनसा यो भृतेन तस्य व्रतम् रक्षणम् मातमङ्गनाय महि शर्मा यच्छतम् अग्नीषो मा समे दशासहो जीवनतङ्गिराः लोमा अग्नेलोमाफलेन वा यो वा न दाति अस्मैदीतयतम् बृहत् अग्ने लोमाभिमाने राजिवान् भव्याजोजोषतम् आया तमुपनस्तचार ो मा विभृमर्मतो नाप्यायन्तामुश्रियाः व्यसूदाः असस्मेफलानि मघवत्सु धम् कृणुतन्नाध्वराम् सृष्टिमन्तम् यमाम् सोममर्हा ते जातवेदसे रसामि सम्मारे मामनीषया ्रात्रा हि राष्ट्रमादिरस्य संसज्जज्ञे लक्षेमारे रामा भयम् तव तस्मै त्वमाज च शेषसाधत्य नर्वाक्षे दिवधाते सुीलम् सदूदाहणैनामस्मात्यम् सतिरज्ञे सख्ये मारे रामा भयम् तव स एवमिधमम् साधयाति यस्ते देवाहविरसञ्चाहूतम् स्वादित्या तावहता ह्यो पुष्पस्य अग्ने रक्षे मारीडा मा तव हरा मेध्वम् प्रणमाहवीम् सीते चिदयम् वे प्रतनम् साधया धियोमे एरखे मारीडामा भयम् तव वीराम् गोपा अस्य चरन्ति चन्द्रवो दिवच्चयुग चतुष्पदुभिः चित्र प्रकेकमृतो महा अस्य ग्मेरक्षे मारीडामा भयम् तव मद्भर्गुरुहोदािभूर्ग प्रसापोता जनु पुरो एकः विश्वा विद्वा आर्विद्याधीरवोक्षस्यग्ने चे मारीरामा भयन्तम रोसे धूरे चक्षन्दिवादि रोचसे ग्रात्यान्धो अधिदेवमस्य मारीषामा भयम् तव कूर्वो देव भवत सन्धो रसोऽस्माकम् संसो अभ्यस्तु धूढ्याः तदा जानी दोतपुष्यतामसो ग्ले सख्ये मारीषामा भयम् तव वधेर्दुःसंसाम् प्रवधूढ्यो यहि दूरे भाजे अञ्चि पाके चिदक्षिणाः जज्ञा जा जाग्रणले सुरम् ग्रथग्ने सख्ये मारीषामा भयम् तमरुोहीतारथे पातजूता ऋभस्येव ते न वा आदिवनिना धूमके तुराग्ने सख्ये मारीषामा भयम् दावके अधस्वनानुगमेभ्युः पदत्रावकेभ्यो खे मारीडामा वयन्तः अजम् मिष्ट्रस्य वरुढस्य धाय देवजाताम् मरुताम् घेलो अद्भूतः नः पुनरग्ने सख्ये मारी रामा मयम् तव देवो देवानामसि मित्रो अद्भुतो वसुर्वसू नामसि चारोरध्वरे शर्म तव सप्रथस्तमे सख्ये मारी रामा भयम् तव ते भद्रम् यत् समेद्ध श्वेतमे सोमाहुतो जराजयत्ता महा तथा शिरः चन्द्रवे रञ्जदा सुख्ये मारे भयम् तव तस्मै त्वम् सद्रवि नो ददासोनाथास्तमादिते सर्वदा यम् भद्रेण समासा स त्वमग्नेदौ भगत्वस्य विद्वानस्माकमायप्रतिरेहदेव कर्ना मित्रोऽपरो नामा वहन्तामदेश्यन्धुः पृथिवी उदजोः भद्रान् वा अपीवादयनाः ओरिः ोषन्द्यस्य समुद्रजेकम् दिव्येक वत्सु कोर्वामनप्रति सम्पार्थिवानाष्टु क इमम्बो निन्यमाचीकेकवत्सो वा नक्ष्मीराङ्ग्रभो अपसापस्थान् महान् प्रवेन्द्यश्च रतिस्वधान् विष्ट्यो मा वर्धते चारो राजुसिंहानामोर्ध्वस्तया सापस्थे उभे त्रष्टुर्विभ्य दुर्जायमानात् प्रतीति सिंहम् प्रती जोषयेते जो उभद्रजोषये तेन मे नेता भो न वास्रामुपादस्थुरेवैः सदर्चानाङ्गर्भूभाङ्गम् तो हविर्भिः उद्यम् यमेति समितेव बाहूतौ यतते धीमरञ्जन् उच्छुक्रमत् कामजते सिमस्मान्न वा मातृभ्योपसनाजहाति मेघम् रूपम् क्रीणुतमुत्तरञ्जत्संरञ्जानः सदा ने गोधीरद्भिः कविर्बुद्ध्रम् वरीमर्मृज्यते धीस्व देवता तासमेर्बभूव गुरुते जयः पर्ये बुद्धम् विरोच मानम् महिनश्च विश्वेऽभिरग्ने स्वया सोऽभिरुद्धो लब्धे भित्पादिभित्पा यस्मान् श्लोकः कृणुते गातुमूर्मिम् शुक्रैरोर्मिभिरभिलक्षभि विश्वासनानि जठरे दृधत्ते दन्नवासु जनदि वसूषु देवानो समिधा वृधानो रेव पामकश्रवसे विभासि तन्ना मित्रावरो ना मामहन्तामदेति सिन्धुः पृथिवी उतदयोः सम्प्रत्नधा सह धाजाया स्वाहा पापश्च मित्रम् धिरणा च साधम् देवा हज्ञम् धारयन्द्र पिनोता नीरम् प्रथमञ्जसाधम् विसहारी राहोद्रञ्जधारम् भूर्ज पुत्रम् भरतम् सर्प्रदानम् देवा अग्निम् धारयन्द्र विनोदा समागरिस्ता उर्वादा वृष्टिर्विदधातुङ्गरायाय स्वर्विय तत्तो ज्ञाने धापय देशमेकम् समीची या वा क्षामा रुक्मा अन्तर्विभाजि देवा अग्निम् धा न विनोदा राजो ीणाम् जातस्य जयाय मानस्य रक्षा सोपाम् भवनस्य भूरे देवासिन्धारयन् रविनोदा विनोदा द्रविणतस्तुरस्य द्रविहोदा सुरस्य प्रयम् सति रवि नोदा भीरवतीषम् मा द्रविहोदारासते दीर्घमायुः ेव नो अग्ने समिधा विधानो रेव पामकश्रमसे विभाी अह्ना मित्रो वरो नो मामहन्तामदेशिन्धुः पृथिवी गुरद्योः अपारस्वोऽसु च कथमग्ने सुध्यालयम् अपारस्वसु च दधम् सुक्षे त्रियासु गा त्रिया वासु या ोऽसु च दघम् प्रयद्बन्धिष्ठाम् प्रास्माकासूदजाः अपानस्वसु च दघम् प्रयत्ने अग्ने सूदयो जाये महि प्रदे वयम् अपनस्वोऽसु चदघम् प्रयदग्नेश्व विश्वतो स न विश्वतो मुख विश्वरः परिपूरसि अपानस्तो सुदघम् द्विषो न विश्वतो मुखादिनावेव पारय अपनस्त्वसु जदघम् स न सिन्धोमिव नामजाति परुषास्वस्तये अपानस्त्वसु जदघम् मयि स्वागरश्च पराजाहिकम् भुवानामभि श्रीः इतो जातो विश्वामिदम् विषष्टे मयि स्वानरो जात ते सूर्येण पृष्टो दिवि भ्रष्टो अग्निः पृथिव्याम् पृष्टो विस्तावोट धीरामी वेश मयि स्वागरस्य हता भ्रष्टो अग्निस्त नो दिवास ऋणः ऐ स्वानरतमतत् सत्यमस्त्वस्मान् राजो मघवानस्ता कर्णा मित्रोऽवरो नो मामहन्तामदि निःसिन्धुपृथिवी उभरजौः जातमे दजे दुरवामसो मातिदाेदाः सह परिभदति दुर्गा निविश्वा रामे वसिन्धुम् दुर्मितात्यग्निः स्वयो ऋषामिष्टेभिस्तमो का मोदिव पृथिव्याश्च सम्राट सती न सत्त्वाहं यो भरे मरुत्पान्न भवत् इन्द्रभूति यस्या नाप्त सूर्यस्य भजा भरे भरे मृत्रा अस्ति ऋणम् तमस्त हिभिस्ते धेवे मरुत्पान्न भवत्मिन्द्रभूति िवोलयस्य नेत सो दुःखाढाः पन्थापरीताः भरद्वे देहों स्येभिर्भत्पान्न भवत्मिन्द्रा भूति सोऽभिरङ्गीरस्तमो भो दृढा मृषाभिस्तेभिस्तभिर् ऋग्मी राज भज्येष्ठो भरत्पान् नो भवत् भूती स दोमभिन्न रुद्रे भरब् दृढाह्ये दधक्त्वा अमित्रान् समीरे विष्णवस्यादूर्पन् भरुत्वा भवत्मिन्द्रभूति समन्युमे समदानस्य कर्तास्माके भिन्नभिः सूर्यम् सरत् अस्मिन्हन्स सत्त्वा पुनभूतो मनत्वान्नो भवत्पिन्द्रभूति त मोदयो रणयन् शुरौ तम् क्षेमस्य क्षिगयः कृष्वस्य करुणस्ये स एको मनत्वान्नो भवत्पिन्द्रभूति तवत्सन्त समसवोत्सवे शु नो न मम वा अङ्घे झत्तमा ज्यो दर्विदन् मरुत्वान्नो भवत् इन्द्राभूति स संयेन यमज प्राधातश्चित्स दक्षिणे सङ्गृहीता कृतानि स हीरिणा चत्सनीताधनानि मरुत्वान्नो भवत् इन्द्राभूति स ग्रामे भित्सनीतासरथे निर्विदे विश्वामिकृत्य भिन्वा समुंस्येरभिभूनस्ये मरुत्वान्नो भवत् इन्द्राभूति स रामिभिर्यश्च समजातिमीढेजामिभिर्वा पुरुहोत एव अपाम् लोकस्य तन यस्य जे भरुत्वान्नो भवत्तिन्द्राभूते समज्रभृदस्युरा भीममुग्धः सम्मेधो न सम सापा धन्यो मरुत्वान्नो भवत्पिन्द्राभूति तरस्य वज्रः क्रन्द निस्मत् स्वर्गादिमोरक्षेतो रवधस्मि वा जन्ते धन यस्तम् धनानि मरुत्वान्नो भवत्पिन्द्रा भूति यस्याजस्रम् तव धामाना मुक्सम् पारि भुज विश्वदस्ति ोभिर्मन्दसारो मरुत्वान्नो भवत्युन्द्राभूति यस्य देव देवगानमर्ता आपश्चन सव सोपङ्का मापुः स प्रलक्त्वा च साक्ष्मो दिवस्य मरुत्वान्नो भवत्मिन्द्राभूति लोहि सा वा सुमनम् सुलावीर्दृक्षा राजनिद्रास्त्वस्य ृषन् मन्त्रम् विभ्राति दोर्षतमम् मन्त्राजीचेतनाहोर्येषु भिक्षु एतत्य इन्द्रमिष्ण उत्सम् वान्ति राधाः निद्रा स्वपृष्टे बिरम्भरेण सहदे कोभयमानः सुराधाः तस्यां शिम्यांश्च पुरहोदये वैर्हत्त्वा पृथिव्याम् दर्भार्यर्हीत् सहक्षेत्रं सह विश्वेन्द्रे भिस्तरम्भ्राः विश्वाहेन्द्रो अधिभक्ताना अस्तवारिकृयामवाजम् निद्रावरो नामा महनादेः